अथ नारायणसूक्तम् सहस्रशीर्षं देवं सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवं विश्वाक्षं विश्वशम्भुवं विश्वं नारायणं देवं विश्वं नारायणं देवाक्षरं परमं पदम् अक्षरं परमं पदं विश्वदपरमा नित्यं विश्वं नारायण विश्वं नारायणम् विश्वमे वेदं विश्वमे वेदमुरुषस्तद्विश्वे पुरुषस्तद्विश्वमुपजीवति सद्विश्वमुपजीवति पतिं विश्वस्यात्मेश्वरगुं पतिं विश्वस्यात्मेश्वर शाश्वतगुं शिवमर्च्युतं शाश्वतगुं शिवमच्युतं नारायणं महाज्ञेयं नारायणं महाज्ञे वात्मानं परायणम् विस्वात्मानं परायण नारायण परो ज्योति नारायण परो ज्योति आत्मा नारायणपरः आत्मा नारायणः परः नारायण परं ब्रह्म नारायण परं ब्रह्म त्वं नारायण परः त्वं नारायणः परः नारायण परो नारायण परो जाता ज्ञातुं नारायणपरः ज्ञानं नारायणपरः यच्च किञ्चित् यच्च किञ्चित् जगत् दृश्यते श्रूयतेऽपि वा दृश्यते श्रूयते पि वा अन्तर्भगिश्च तत् सर्वम् व्याप्य नारायणस्थितः व्याप्य नारायणस्थितः व्ययम् अनन्तमव्ययम् कविगो कविगुं समुद्रेन्तं समुद्रेन्तं विश्वशम्भुवं विश्वशम्भुवम् पद्मकोश पद्मकोश प्रतिकाशगो प्रतिकाश हृदयं मुखम् हृदयं चाप्यत्वमधो निष्ठ्या अधो निष्ठ्या हि तस्यान्ते इदस्त्यान्ते आभ्यामुपरि आ मुपरिष्ठति वाल माला कुलं भाति वालमाला कुलं भाति विश्वस्यायतनं मगते विश्वस्यायतनं सन्ततगु सन्ततगुलाभिस्तु लाभिस्तु लम्पत्या कोशसन्निभं लम्पत्या कोशसन्निभं स्यान्ते अस्यान्ते शुशिरघुं सूक्ष्मं शुशिरघुं सूक्ष्मम् सर्वं तस्मिन् सर्वं प्रतिष्ठितं प्रतिष्ठितमस्य मध्ये तस्य मध्ये महान् अग्निर् महान् अग्निर्विश्वार्चिर्विश्वार्चिर्विश्वतोमुखः विश्वतोमुखः योग्रभुग् विभजन्तिष्टन् योग्रभुक्तिभजन्तिष्ट नाहारमजरकविः नाहारमजर कविः हिर्यगुर्वीर्य ोड्वमदशायि अस्मयस्तस्य सन्तता अस्मयस्तस्य सन्तता अन्तापयति स्पन्देह सन्तापयति स्पन्देह देहमापादतलमस्तकः देहमा पाततलमस्तकः अस्य मध्ये वन्निशिका अस्य मध्ये वन्निशिकानीयोर्ध्वा नियो ऊर्ध्वा व्यवस्थितः व्यवस्थितः नीलतो यद् मध्यस्था नीलतो यद मध्यस्थालेखेव विद्युल्लेखेव आस्वरा आश्वरा नीपरसुकवर्तन् वीवारसुकवर्तन् गीता बास्वत्यनुपमा गीता वा आस्वत्यनुपमास्य आशिकाय मध्ये अस्य आशिकाय मध्ये द्य। परमात्मा व्यवस्थितः परमात्मा व्यवस्थितः ब्रह्म ब्रह्म शशिवः सशिव स हरि स हरे सेन्द्र सह सेन्द्र सोऽक्षर परमस्वराट तघुं सत्यं परं ब्रह्म त्वगुं सत्यं परं ब्रह्मपुरुषं कृष्णपिङ्गलं <laughs> पुरुषं कृष्णपिङ्गलम् ऊर्ध्वरे तं विरूपाक्षम् विरूपाक्षं विश्वरूपाय वै नमो नमः नमो नमः नारायणाय विद्महे नारायणाय विद्महे वासुदेवाय धीमहे वासुदे देवाय दी मन्नो विष्णुप्रचोदयात् तन्नो विष्णुप्रचोदयात् ॐ विष्णु शान्ति शान्ति शान्तिः ॐ शान्ति शान्ति शान्तिः